श्रीरङ्गनाथपादुकासहस्रं पद्धति फैव् प्रतिप्रस्थानपद्धतिः अनुष्टु प्रशस्ते रामपादाभ्यां पादुके पर्युपास्महे आनृशंस्यं ययोरासीदाश्रितेष्वनवग्रहम् पृथ्वी भृशातुरसहोदरप्रणयखण्डनस्वैरिणा पदेन किमनेन मे वनमिहा वनादिच्छता इतीव परिहाय तन्निवृते स्वयं यत्पुरा पदत्रमिदमाद्रिये धृतजगत्त्रयं रङ्गिणः मालिनी दशवदनविनाशं वाञ्छदो यस्य चक्रे दशरथमनखोक्रिं दण्डकारण्ययात्रा स जभरथविमर्दे सत्यसन्धस्त्वयासीद्रघुपतिपदरक्षे राजधानीं प्रयान्त्या रथोद्धता साहसा अभ्युपेतविनिवृत्तिसाहसा देवीरङ्गपदिरत्नपादुके अत्यशेदभवती महीयसा पारतन्द्र्यविभवेन मैथिलीम् वसन्ततिलकम् अव्याहदां रघुपदेर्वहदप्रदिज्ञा मंसाधिरोहणरसे विहदे धरण्याः प्रागान्निवृत्य भवति मणिपादरक्षे स्पर्शं पदेन विकदव्यवधानखेदं मन्त्राभिषेकविरहात् भजदा विशुद्धिं संस्कारवर्जनवशादभिसंस्कृतेन मूर्ध्ना निनाय भरदो मणिपादुके त्वां रामाज्ञया विनिहितामिव राज्यलक्ष्मीम् चक्षार्थमस्य जगदो मणिपादरक्षे म से पादकमल सम त्यज्यो तव दुष्कव परिग्रहोवा किम्वा वह किंवा विदेश दुखी दुकणा दशा सा सीता सख से सहसा चरना भक्रिया ने कृतपदा भरतोत्तमाङ्गे आरुह्य नागमभितो भवती वितेने मायूरचामरभरं मणिरश्मिजालैः मा मूर्ध्ना मुकुन्दपदरक्षिणि बिभ्रतस्त्वा माविर्मदस्य रघुवीरमदावलस्य आमोदिभिः सपदि लेभे चिराद्वसुमदी रुचिरं विलेपम् आशाः प्रसादयितुमम्ब तदा भवत्या दैवादकाण्डशरदेव समुद्धिदायाम् तो कावशेषसलिला सहसा बभूवुः साकेदयौवदविलोचनवारिवाहाः अन्देवसन्नचरमस्य कवेः स योगी वन्यान् प्रगृह्य विविधानुपदाविशेषान् आतस्तुषीं रघुकुलोचिदमौपवाह्यं प्रत्युज्जगाम भवतीं भरतोपनीदां मातस्त्वदागमनमङ्गलदर्शिनीनां साकेदपक्ष्मलहृषां चडुलाक्षिभृङ्गैः जाता तत्र सहसा मणिपादरक्षे पतायना वदनशदृद सासीदी मणिपादरक्षे मंगल्यलाजनिकवक स्वरभ का काले वहिकी जननी वहिखे वरेजे चक्रेदुम्डलवी चामर कलाप प्रसूना सद्यो बभूविध समस केद। पौरवनितानयनोत्पलानाम् इन्द्रवज्र प्रैक्षन्दवक्त्रायर्मणिपादरक्षे शत्रुञ्जयं शैलमिवाधिरूढां रामाभिधानप्रतिपन्नहर्षैरुत्तानितैरुत्तरकोसलास्त्वाम् द्रष्टुं तदा राघवपादरक्षे सीतामिव त्वां विनिवर्तमानाम् आसन्नयोध्यापुरसुन्दरीणामौत्सुक्यलोलानि विलोचनानि उपजाति आस्थाय तत्र स्फुटबिन्दुनादं स्तम्भे रमं तादृशसन्निवेशम् अदर्शयस्त्वम् पुरमध्यभागे प्रणवाश्रयत्वं। शिखरिणि दशग्रीवस्तम्भे रमदलन दुर्दान्तहृदये विहारस्वाच्छन्द्याद्विशदि रघुसिंहे वनभुवं स्वात्सल्यक्रोटी कृतभरद शाभैव भवती निराबाधां पादा वनिनविजहौ कोसलगुहा शादुलविक्रीडितं कैकेयीवरदान दुर्दिननिरालोकस्य लोकस्य लोकस्य यत्राणार्थं भरदेन भव्यमनसा साकेदमानीयदे रामत्यागसहैरसह्यविरहं रङ्गक्षिदीन्द्रस्य तत्पादत्राणमनन्यतन्त्रभणिदेपीडमीडीमहि जीति समुपस्तिदे प्रदोषे सहसा विनिवृत्य चित्रकूडवनाद अभजत् पुनर्जनपदम् वत्सं धेनुरिव पादुके भवति इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कडनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुका सहस्रे प्रदिप्रस्थानपद्धदिष्ट पञ्चमी ओ